अथ तैत्तीयोपनिषद्भागे चतुर्थप्रश्नः प्रारम्भः सहनाभवदो सहनोभनन्तो सह सहना वीर्यम् गलावहै तेजस्विनावधितमस्त्वमाविद्विषावही ओम् शाम् दिश्याम् दिश्यादिः अम्भस्य पारे भवनस्य मध्ये नागस्य पृष्ठे महतो महीयान् शुक्रेण ज्योतीगोषितमनुप्रविष्टप्रजापुरिरधिगर्भे अन्तः यस्मिन् जगोसम् जविजयति सर्वम् यस्मिन् देवा अधिविश्वे निषेधो तदेव भोदन्तदभव्यमा इदङदक्षरे परमे व्येनाभृतम् कम् जिवम् महीम् च तेनादित्यस्तपधितेजसाभ्राजसा च मन्त्रे गमया यतः प्रसोदा जगतः प्रसोदीतो येन जीवान विजतश्च पुरुषाम् विवेशभूतानि चराचराणि अनदः परन्नान्य महान्तम् यदेकमव्यक्तमनन्दरूपम् विश्वम्बुरानन्दमतः परस्तात् तदेव तन्दलसत्यमाहस्तदेव ब्रह्मपरमङ्गवीना इष्टामूर्तम् बहुधा जातम्भवन तदेवग्निस्तद्वायस्तत्सौर्यस्त्रमाः तदेव शक्रमृतन्द्रह्म तदापः स प्रजापतिः सर्वे निमेषा ल्पन्ता से इमे अन्तरिक्षमथोध्यजग्रपद न दस्येखश्च न तस्य नाम महत्यशः न सन्दृशे ष्ठधिरोपमस्य न चक्षुषापस्य धिकश्च भवन्ति अभ्यः एष हि देवः प्रतिशोदसर्वाः पूर्वो हि जातस्य वगठे अन्तः स विजायमानस्य च निश्यमाणप्रत्यङ्मुखास्तिष्ठति विश्वदामुखः विश्वदश्चक्षुरुतविश्वदामुख विश्वदाहस्तमुदविश्वदस्मात् सम्भाभ्यान्नमतिसम्पदत्रेत्या वा पृथिवीजलैन्द एकः येनस्तत्पश्य न विश्वाभवनानि वित्तानेत्र विश्वम्भवत्येकनीलम् यस्मिन्नितकोसञ्जविजैककोसरो तप्रोतश्च विभक्प्रजासुतुहासु त्रीणि पदानि हि तागुहासु यस्तद्वेदपिता धामानि वेदभुवनानि विश्वा यत्र देवा अमृतमानशानास्तुति ये धामान्यभ्येरयन्ता परित्या वा पदस्यदन्तम् विदतम् विजर्त्यपश्यत्तदभवत्प्रजातो परीच्य लोकान् परीत्य भूतानि परीत्य सर्वाः प्रतिशोदिषश्च प्रजापदितस्यात्मनात्मानमभितम्बभूव सदसत्पतिमद्भुतम् प्रीमन्द्रस्य काम्यम् सन्मेधामयादिशम् उत्तीत्यस्वजातवेदन्यशोकश्चमयमावह जीवनम् जतिशोदिश मानोलीत्यादवेदुरुषिनागहि श्रिया मादयसहस्राक्षस्य महादेवस्य धीमहि तन्नारुद्रः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नारुद्रप्रचोदयात् तत्पुरुषाय विद्महे वक्रदन्दाय धीमहि तन्नादण्ड्यप्रचोदयात् तत्पुरुषाय विद्महे चङ्क्रदन्दाय धीमहि तन्नानन्द्यप्रचोदयाद तत्पुरुषाय विद्महे महासेनाय धीमहि तन्न षण्मुखप्रचोदयाद तत्पुरुषाय विद्महे सुवर्णमोक्षाय धीमहि तन्नागरुडः प्रचोदयाद वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नामा नारायणाय विद्महे वासुदेवाय धीमहि तन्ना विष्णुः प्रचोदयात् प्रजनाय विद्महे कृष्णाय धीमहि तन्ना नारसिंहप्रचोदयाद भास्कराय विद्महे महद्विन्य धीमहि तन्ना आदित्यप्रचोदयात् वीश्वानराय विद्महे लालीलाय धीमहि तन्नाग्निः प्रचोदयाद कात्यायनाय विद्महे कन्यकुमारि धीमहि प्ननाशिनी प्रथमसहस्रेण या शतेन प्रथमोण विरोहसि तस्यास्ते देवेश्व वयम् अश्वक्रान्दे रथक्रान्दे विष्णुक्रान्दे वसुन्धरा शिरसाधारयिष्यामि रक्षस्व माम्बदे पदे भोलब्धेन कृष्णेन शिलपाहना मृत्तिके हनमे पामय्यन्मया दुष्कृतम् कृतम् दं। मृत्तिके ब्रह्मदत्ताधिकाश्यमेनाभिमन्त्रिता मृत्तिगे देहि मे पुष्टयि सर्वम् मुझति प्रतिष्ठितम् मृत्तिगे प्रतिष्ठिते सर्वम् तन्मेत मृत्तिकेण पापेन गच्छामि परमाङ्गलिम् न्नभूतये विद्विषाजिः स्वस्थिता विषत्पतिर्वृद्धा विमृता विषि विषयेन्द्रः पुरवेदनः स्वस्थिदाभयङ्करः स्वस्ति न इन्द्रो वृद्धश्रवा स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षष्टनेऽपि स्वस्ति न बृहस्पतिर्दधातुमन्यस्त्रबलप्रभल्माधिलश्रिमी वाञ्छमा न्द्रम्भो ब्रह्मजानम् प्रथमम् पुरस्ताद्विदस्वरुचो निवसदस्तु विवह स्योनापुथिविभवानक्षरानिवेशिनी यक्षा न प्रधाः गन्धत्वानान्दुराधर्षान् नित्यपृष्टाङ्कलेशिणी ईश्वरैकौ सर्वभूतानाम् तामिह पये श्रियम् श्रीर्मे भजलो अलक्ष्मीर्मे न नश्यतः शुभमकावे देवाश्चन्दोभिर्मान लोकानां वदये मत्जैनं महावृन्द्रवत्त्रवाहश्वदशी सम्मेच्छदो स्वस्तिना भवका करोदं तुपाप्मानिञ्जो अस्मान् गष्टिः ओमानक शरणं गनेह कम्मडस्पदे खक्ष्रियं दञ्जुऔषधं शरीरयक्स्य सोलं गुसेदन्तं सेददया अस्मान् गष्टिः शरणम् पवित्रम् विदनम् प्राणय्येन भूतस्तर निष्कुलानि तेन पवित्रेण शुद्धेन भूतादिपात्मानमरामम् विश्वदानः सुमित्राणाम् च वयम् विष्मः आरोहिष्ठाम यो भवस्तानभूर्जे दधातनायक्षसे योस्थस्यम्भम् प्रबे मे देहि याचितः यन्मया दुःखमधूनाम् भापेभ्यश्च प्रतिग्रहः यन्मै मनसा वाचा कर्मणा वा दुष्कृतम् कृतम् तन्न इन्द्रावरुणागृहस्वस्वन्दपत् पुनः यस्यात्मकमर्शनः जायता ततो रात्र पुस्य मध्ये पवनस्य गोप्ता एष पुण्यकृतान् भोगानेषरन्वयम् अहं ग्रञ्ज्वलधिज्योतिरहमस्मि यो निज्ज्वलदि ब्रह्माहमस्मि याहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहम् माञ्जोमि स्वाहार्णे स्थे नोणः गुरुणल्पकः पापकर्षिणस्तस्मात् पापात् प्रमुच्चिरे त्वजामि स्वाहादय स्वप्रवदन्ति धीराः आक्रान्तमुद्रप्रथमे विधर्मयन् भुजाभवनस्य राजा वृषा पवित्रेन्दुः यतो नितिवेदः परः परशतर्गाणि विश्वानाले वसिन्धम् धरिताः कामग्निवन्नान्तपसा ज्वलन्तीम् वैरोचनीम् जन्मफले सुजिष्टाम् दुर्गान् देवी गौ शरणमहम् प्रपद्ये सुतलशितले नमः अग्ने त्वम् वादयानव्यस्मान् दुर्गाणि विश्वान लोकायतनयाग्ने मनसा गृणानास्माकम् बाध्यपिता न्दमेन्द्रविष्णो नागस्य पृष्ठ नो वैष्णवेन्द्रोकयमादे भोरन्न अग्नये पृथिव्ये स्वाहा भुवान्नम् वायवेऽन्तरिक्षाय स्वाहा सुवरन्नमादित्याय दिवे स्वाहाभूद्भुवस्वन्नम् चन्द्रमदेभ्य स्वाहा नमो देवे हस्वधा भोरग् पृथिव्ये स्वाहा भो, भो वायवेन्तरिक्षाय स्वाहाय दिवे स्वाहाभूद्भुवस्वश्चन्द्रमदेभ्यः स्वाहा नमो देवे ह्यस्वधा पितृभ्योद्भुवस्वग्नो भोरज्ञये च पृथिव्यै च महतेजस्वाहा भुवो वायवे चान्तरिक्षाय च महतेजस्वाहादित्याय च दिवे च महते जस्वाहास्वश्चन्द्रमदे च नक्षत्रेभ्यश्च महतेजस्वाहा नमो देवेभ्य स्वथा पितृभ्यो भोद्भुवस्व हर्म हरो स्वाहा पाहिन विश्वमेधे स्वाहा यज्ञम् वा स्वाहा सर्वम् वाहि स्वाहा पाहिनोग्न एकया बाह्यदृयया बाह्योऽर्जन्तृदीयया पाहिगेभ्यश्च दशर्भिर्वसा स्वाहा यच्छन्द्रमाविश्व पश्चन्दाभ्यश्चन्दागस्याविवेश्यः पुरोपनिन्द्राज्येष्ठन्द नमा ब्रह्मणे धारणम् मेऽस्मनिराकरणम् धारयिता भूया सङ्कर्मयो श्रुतम्ब्रह्म मानुष्योगन्दवः सज्जन्दवः श्रुतन्दवः शान्तन्दबोधमस्तभश्यमस्तबोधानन्दभोये गन्दभो भोद्भवः सुरब्रह्मैतद्वाः यथा वृक्षस्य सम्पुष्पितस्य दूराद्यम्भावा एवम् पुण्यस्य कर्मणा दूराद्यम्भवादिधारान् गत्येव हि तामवक्रामे यद्यिष्यामि कर्तम् वदिष्यामि इत्येवमवदात्मान् जिगुप्त अणाणीयान्महता महीयानात्मा गुहायान्निहितास्य जन्तो नाम क्रदम् पश्यति वेदशोकाधातुप्रसादान्महिमानमीशम् सप्त प्राणाः प्रभवन्ति तस्मात् सप्तात् समिधः सप्त जिह्वाः सप्त इमे लोकायेषु चलन्ति प्राणा गुहाशयान्निहिताः सप्त सप्त अधः समुद्रागिरेश्च सर्वेऽस्मात् स्यन्दन्ते सन्धवः सर्वरूपाः अतश्च विश्वाषदयताेनस्तिष्ठत्यन्तरात्मा ब्रह्मा देवानाम् पदवेकवीनाम्प्राणाम् सेनावृत्राणात्रोहितशुक्लकृष्णाम्भ्यागोजातम् शत्व। बृहत क्षि हव्यम् शृङ्गाममे चत्वारिषे सप्तहस्तासो त्रिधा बुद्धा वृषभारो रवीति महादेव त्रिधा हितम् पणिभिर्गस्य महर्षिः हिरण्यगर्घम् पश्य दजायमानगोसनो देवश्रुभया स्मृत्या संयुजक्तो यस्मात्परन्नापरमस्ति किञ्चत्यस्मान्नानियोनुयोस्ति कश्चित् स्तब्धो निमितिष्ठत्येकस्ते नेदम् पुरुषेण सर्वम् प्रयाधनेन त्यागेनैके अमुतत्त्वमानुषः अरेण नाकन्निः दङ्गुहायाम् विभ्राजनेतयो विशन्ति वेदान्तज्ञानशलिश्चिदार्था सन्न्यासयोगाद्य शुद्धसत्त्वा ्रह्मलोके तु परान्तकाले पुरामुतात्परिमुच्यन्ति सर्वे दिपापम् परमेश्वरम् जगनम्पादितव्यम् यो वेदादौ स्वर प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिरीरस्य परः स महेश्वरः सहस्रीलम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वन्नारायणम् देवमक्षरम् परमम् म् विश्वम् नारायणमो हरिम् विश्वतमच्युतम् नारायणम् नारायणपराज्योद्यात्मा नारायणः परः नारायणपरम् ब्रह्मतत्मन्नारायणः परः नारायणपराध्याताध्यानरायणः परः त्यजगत् सर्वम् दृश्यते विवा भं गर्कायसरात् सर्वं व्याप्य नारायणस्थिरः आनंदमव्येम कविगोसमृदं विश्वसंभवं पत्रनिवासप्रदीभाशं हृदयं व्याप्यथोमुखं अधानिशत्याविदस्यान् देनाभ्याम् वरदिष्ठति स्वामालाकुरामभादी विश्वस्य यदनमहाद संतदकोशलाभिस्तलं बत्यागोससन्निभं तस्यां तेजसिकोशलोष्णं तस्मिन् सर्वं प्रतिष्ठितं तस्य मध्ये महानुत्तमं विश्वार्थर्वश्वदमुखः या मध्ये परमात्मा व्यवस्थितः स ब्रह्मस्वरा आदित्य वा एष एतन्मण्डलं तपदितत् रजाजस्तृजामण्डलको सरजान् लोकाथयेष एतस्मिन्मण्डले चिदीप्यतेतानि सामानि ससाम्नान् लोकाथयेश एतस्मिन् मण्डलेश्चि शिपुरुषस्तानि यजुगुंशि सैदुषा मण्डलको सैदुषान् लोकस्यैषा त्वयैव विद्यातमधिषोऽन्तरादित्यैः अण्मयः पुरुषः आदित्यावेदे जगो जगल्युश्रात्रमात्मा मनो मन्युर्मनुर्मित्युः सत्यामित्रा वायुराकाशः प्राणोलोकबालः कः किम् कम् दत्सत्यमन्नमृत जीवाविश्वमृत एष पुरुष एष भूता नामतामाप्नोत्येतासामेव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 शिवाय नमः शिवलिङ्गाय नमः ज्वराय नमः ज्वलिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परलिङ्गाय नमः एतत्त्वमस्य सौर्यस्य सर्वलिङ्गग्य स्थापयति पाणिमन्त्रम् पवित्रम् सद्यम् प्रवद्यामि सद्यो जातायवे नमो नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नो बलविकरणाय नोधनाय नमः सर्वभोधमाय नमः सर्वेभ्यः सर्वेभ्यो नमस्ते स्तुत्ररूपेभ्यः सत्पुरुषाय विद्महे महादेवाय धीमहि अर्णोर् प्रचोदयात् ईशानसर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपृदर्ब्रह्मणाधिकृतर्ब्रह्मा शिभो मे सत्सुसदाशिभो नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपदयेऽम्बिकापदये उमापदये पशुपदये नमो नमः सत्यम्बरम् ब्रह्मपुरुषम् कृष्णमिङ्गलम् गोद्धरेदम् विलपाक्षम् विश्वरूपाय वै नमो नमः सर्वीर्थस्तस्मै नमोऽस्तु पुरुषा वैरुद्रः सन्महाम् भुवनम् चित्रम् बहुधा जातम् जायमानम् रुद्रस्तस्मै रुद्राय नमोऽस्तु तदरुद्राय प्रदे सर्वाह्येषु रुद्रस्तस्मै रुद्राय नमोऽस्तु यस्य वैगम् गत्यज्ञहाप्रहवनीभवति प्रत्यैवाष्ठन्ष्ठित्यै कृणश्वाजैदिवम् च देवागन्धर्वामनुष्यास्तेषाकम् दे सर्वभूतानाम् माता मेदिनी महता महीषा वित्री गायत्रीर्वीपृथ्वी बहुरा विश्वा भूताकमाकाया सा सत्ये चेतिवधिष्ठः आपो वा इदगो सर्वम् विश्वा भूतान्यापः प्राणावृतमाप्राणाश्यापो य जोगुष्यापः जो सत्यमापः सर्वा देवतापः पुरन्द पृथिवीम् पृथिवीभूता पुनातुमाम् पुरन्द ब्रह्मणः पृथब्रह्म भूता पुनातुमा यदच्छ सर्वम् वदन्तु मामापो च प्रतिग्रहः स्वाहा अग्निश्च मामन्युश्च मन्यपलेश्च मन्यकृतेभ्यः पापेभ्यो रक्षन्ताम् मनसा वाचहस्ताभ्याम् अहस्तदवलम्बद यत्किञ्चिदृदम् मयि इदमहमा मम सत्ये ज्योतिषजहो स्वाहा सूर्यश्च मामन्युश्च मन्यपलेश्च मन्यकृतेभ्यः पापेभ्यो रक्षन्ताम् यत्रात्र्यापापमखादृशम् मनसा वाचा हस्ताभ्यामुदरेण रात्रिस्तदवलम्पदृदम् इत्येकाक्षरम् ब्रह्म अग्निर्देवता ब्रह्म इत्यादृशम् गायत्रम् छन्दम् परमात्मम् स्वरूपम् साहित्यम् विनियोगम् आया सुरदा देवी अक्षरम् ब्रह्म गायत्रीम् छन्दसाम् मातेदम् ब्रह्म दिवस्त्वमे यदन्नात् कृते पावम्ना कृतिमुच्यते दद्रात्र्यात् कृते भावम् दद्रात्र्यात्कृतिमुच्यते सर्ववर्णैमहादेवी सन्ध्याविद्ये सरस्वती ओजसि सहासि पदमसि प्रायोषि देवानां धामनामासि विश्वमसि विश्वायु सर्वमसि सर्वायुरभिभून् गायत्री मावाहयामि सावित्री मावाहयामि सहस्रवीमावाहयामि चन्दर्षीनावाहयामि श्रियमावाहयामि गायत्र्या गायत्री छन्दो विश्वामित्रविधा देवतान्मुखं ब्रह्मा शिवाविष्णहृदयो मृदशिखा पृथिवी यो प्राणापानव्यानो दयानसमानास प्राणाश्वेतोन्नादाङ्ख्यायन स गायत्री चतुर्विगो सत्यक्षरात्रिपदा षट्क्षिपञ्चदीदृशोपनयने विनियोग ओम्भूः ओम्भुवः ॐ महः ओम् जनः ॐ तवः सत्यम् ओं दत्सवितुर्वरेण्यम्भक्तो देवस्य धीमिः मृतम् ब्रह्म भो भुवस्वरो उत्तमे शिखरे जाते भूम्याम् ब्राह्मणेभ्य गच्छ देवि यथा सुखम् सुतो वरदा वेदमाता प्रचोदयन् दीपवनेता आयुः पृथिव्याम् ब्रह्म वक्तसंम् दत्त्वा प्रजातम् ब्रह्म लोकम् गणसूर्यानप्रभावात्यक्षरम् न्ति ये ब्राह्मणाम् प्राप्नुवन्ति मधुमेधया ब्रह्ममेधया अज्ञानो देवसविदप्रजाभिः स्वभगम् परादिष्वप्ष्मानदेवसवितृ परा यद्भद्रम् तन्महासुवृतायते सिन्धवा ्रोणत्याम् वा ये नन्ति ये ब्राह्मणा ते सा मं प्राप्नुवन्ति पङ्क्तिम् बृणन्ति ओ ब्रह्ममेधवा मधुमे कविना ब्रह्ममेव मधुमेधवा ब्रह्मादेवानाम् पदवीक्रवीणाम्प्राणाम्बलानागोसोपवित्रमजेरन्तरिक्षसद्भोतारोहदृचेनाः अन्तर्हता मनसा पूयमानाः ढन्ति ते सर्वम् प्राप्नुवन्ति आशास्त्रात्पङ्गम् वदन्ति ओम् मेधादेवी दुषमानागा विश्वाजीष्टादृष्ट्रीया तयादिष्टश्चित्रम् इन्द्रोद्रविणो मेधाम्मीन्द्रो दालवेदान् देवी सरस्वती वेदाम्मेऽश्विनाभावा दत्ताम् पुष्करश्रया पुष्करा सुया मेधागन्धर्वेषु श्रेण्मनः देवीम् मेधासरस्वतीयि प्रजाम्निस्तेजो दधातु मयि मेधाम् मयि प्रजाम् मयीन्द्रेन्द्रियन् दधातु मयि मेधाम् मयि प्रजाम् मयि शौर्यो भ्राजो दधातु अभेदैव अभयम् तृणोतु ीयतान्नस्य जीपतिः परम्परेणम् मनसान्वारभापति गोपाः स न मृत्योहच्यो जीवाजरामधीमहि अमत्रभो यादयत्यमस्य बृहस्पतेरमञ्च मृत्यो रामश्विना मृत्युष्मानामग्नि मृत्युन्दराम्यहम्मायुरुषा मानो महान्दवृतमानोद्भगम् मानोक्षन्दवृतमानोक्षितम् मानोतरम् आयुषुमानोकोषुमानोऽषः भयङ्करः जदामहे सुगन्धम् पुष्टिवर्धनम् एते धर्वाशामृत्यावे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा स्वाहा देवकलस्येन सह वैजनमधिस्वाहा मनुष्यकदस्येन सह वैजनमधिस्वाहाकदस्येन स वैजनमधिस्वाहा आत्मकृतस्येन स वैजन्मधिस्वाहा अन्यकृतस्येन स वैजन्मधिस्वाहाकृतस्येन स वैजन्मधिस्वाहा जनः कञ्जयनश्च क्रमदस्य वैजन्मधिस्वाहा यत् स्वबन्धस्य जाग्रदस्यैनश्च कर्मदस्य वैजन्मधि स्वाहा जाग्रदश्चैनश्च क्रमदस्य वैजन्मधिस्वाहाद्विद्वागम् चाविद्वागम् सश्चयनश्च क्रमदस्य वैजनमधि स्वाहा देवानसोडनम् कामोकार्षेत् कामः करोति नाहङ्करोमि कामः कर्ता नाहङ्कर्ता कामःितानाहङ्कारयिता एष ते कामकामाय स्वाहा मञ्जुलकार्षे नमः मन्यलकार्येन्मन्यः करो जनाहङ्करो मन्यः कर्तानाहङ्कर्ता मन्यः कारयितानाहङ्कारयिताङ्गम् स्वाहा्यम् धनमन्मो सर्वे श्री स्वाहा श्रीम् च लक्ष्मीम् च पुष्टिञ्च कीर्तिञ्जानुजता ब्रह्मण्यम् बहुभद्रता श्रद्धा मेधे प्रजाः सन्ददातु स्वाहा किल कृष्णास्तिला श्वेतास्तिला सौम्यावशाः किलाः पुनन्द मेत्रिञ्ज त्रय स्वाहान्नवश्रार्थम् ब्रह्मल्पकः पानम् ब्रोणत्याकौ शमयन्त स्वाहा श्रीश्च लक्ष्मीश्च कृष्णैश्च ब्रह्मण्यम् बहुपुत्रता श्रद्धा मेदे प्रज्ञादजातवेदः सन्दता दुःस्वाहा प्राणापानव्यानोदानसमानामे सत्सन्द्राञ्ज्योतिरहम् विरजापिपात्मा भूया सत्त्वस्वाहा क्षुश्रो त्रिष्पाघ्राणरेदो बुद्ध्याकोलिस्सङ्कल्पा मे शुध्यन्ताम् ज्योतिरहम् ब्रजापिमा भूयासकृस्वाः मागोसरिधिरमेदो बुद्ध्यास्नाय वो स्थी मे शुद्ध्यन्ताम् ज्योतिरहम् बिरजापि पात्मा भूयासकृष्णाः स्थिरपाणिपादपार्श्वपृष्ठोरोदरजङ्घशिष्टावस्थलाय वो मे शुद्ध्यन्ताम् ज्योतिरहम् बिरजापित्मा भूयासकृष्णाः उत्तिष्ठ पुरुषहरित पिङ्गल लोहिताक्षि देहि देहि दलापेता मे शुद्ध्यन्ताञ्ज्योतिरहम् विरजामि पहात्मा भूयास स्वाहा दिव्यावस्तेजो वायु आकाशा मे शुद्ध्यन्ताञ्ज्योतिरहम् विरजामि पहात्मा भूयासुस्वाहास्पर्शरोपदशगन्धा मे शुद्ध्यन्ताम् ज्योतिरहम् विरजामिपात्मा भूयासृत्स्वाहा मनोवाक्काय कर्माणि मे शुद्ध्यन्ताम् ज्योतिरहम् विरजामि पात्मा भूयासु स्वाहा यद्रहारहङ्कारे ज्योतिरहम् विरजाविपात्मा भूयासस्वाहा आत्माने शुद्ध्यन्ताम् ज्योतिरहम् विरजाविपात्मा भूयासकृ स्वाहा अन्तरात्मा मे शुध्यन्ताम् ज्योतिरहम् विरजापिपात्मा भूयासकृ स्वाहा परमात्माने शुद्ध्यन्ताम् ज्योतिरहम् विरजापिपात्मा भूयासकृ स्वाहा शुधे स्वाहा क्षुत्पिपासाय स्वाहा स्वाहाधानाय स्वाहाय स्वाहाम्यहम्बुद्ध्यञ्च सत्वान्यन्नः अन्नमयप्राणमयमनोमयविज्ञानमयमानन्दमयमात्मा मे शुद्ध्यन्ताम् ज्योतिरहम् ब्रजान्पात्मा स्वाहाय स्वाहा ध्रमाय धूमाय स्वाहा स्वाहा धर्माय स्वाहा अधर्मा स्वाहा व्यस्वः अवसाने व्यस्वः अवसानबुलिव्यस्वाः सर्वे व्यस्वाः कालाः अन्तरिक्षाय स्वाहा यदि जगदियचेष्टदिनाम्ना भागोयम्नाम्ने सः न्द्रपदे स्वाहा नक्षत्रेभ्यः स्वाहा इन्द्राय स्वाहा बृहस्पतये स्वाहा प्रजापदये स्वाहा ब्रह्मणे स्वाहा स्वधा पितृभ्यः स्वाहा नमाय पषदये स्वाहा नमः मनुष्येभ्यो स्वाहान्तो विदुरस्य प्रेष्याः तेभ्यो बलिम् पुष्टिकामो हरामिष्टिम् पुष्टि स्वाहा ओह्म ओयो ओरोद्रस्त्वम् विष्णुस्त्वम् ब्रह्म त्वम् प्रजापतिः तन्ददा पाभोच्यो दे सोऽस्वरो श्रद्धायाम् प्राणेऽनुष्ठमृतं श्रद्धायामपानेन श्रद्धायां ज्ञानेन विष्टोमृतं जहोमि श्रद्धायामृदानेन विष्टोमृतं जहोमि श्रद्धाया कुंसमानेन विष्टोमृतं जहोमि ब्रह्मणित्मामृतत्वाय अमृतो श्रद्धायाम् विष्टोमृतं जहोमि शिवोम विशाप्रदाय प्राणा युस्वाहा श्रद्धायामपानेन विष्टोमृतं जहोमि शिवो मा विशाप्रदाय अपानायस्वाहा श्रद्धायाम् ज्ञानेन विष्टोमृतं जहोमि शिवो मा विशाप्रदाय द्यानायस्वाहा श्रद्धायामृदानेन विष्णामृतञ्जहमि शिवो मा विशाप्रदाय उदानायस्वाहा श्रद्धायाम् समानेन विष्णामृतम् जोमि शिवो मा विशाप्रदाय समाना इस्वाहा ब्रह्मणिम आत्मामृतत्वाय अमृताभिधानमपि अपाणमन्नेनाप्यायस्व श्रद्धायाम् यानेन विश्यामुतरमोहतम् व्यानमन्येनाप्यायस्व श्रद्धायामुदानेन विश्यामुतरमोहृतम् उदानमन्नेनाप्यायस्वा श्रद्धायामो समानेन विश्यामतरमोहृतम् समानमन्येनाप्यायस्व अङ्गुष्ठमात्रपुरुषाङ्गुष्ठम् च समाश्रितः जगत् प्रभु क्रीणाति विश्वभुः वाङ्म आसन्न न सा प्राणः अक्षाश्चक्षुः कर्णय श्रोत्रम्बलम् पूर्वोरयः परिष्काविश्वाण्यङ्गानितनोमे सह नमस्ते माहि वयस्वर्णा उपदेधातुमानाः ेनाङ्गो रुद्राय विष्णवे मृत्युर्मेताहि त्वमग्नेत्युभिस्त्वमाधुसुक्षणिभ्यस्मस्मनस्परि तन्मनेभ्यस्तमौषधेभ्यस्वन् नृणा नृपदेजाय शेषुः शिवेन मे सन्दिष्टस्व स्योनेन मे सन्धिष्ठस्व भूतेन मे सन्दिष्टस्व ब्रह्मवर्जतेन मे सन्दिष्टस्व यज्ञस्योपदे सत्यं परम्परगो सत्यगो सत्यै नोकाच्य वन्दे कदाचन सदात्मरन्तरिणस्तस्मात्तमेर मन्दे शमयैत्यरण्ये मुनयस्तस्माच्छमेरमन्दे दानमिति सर्वाणि भूतानि प्रशनुसन्ति दानान्नातिनिश्चरन्दस्मानेर मन्दे धर्म इति धर्मेण सर्वमिदम्बरैरीकं धर्मा ुष्करं तस्माद्धर्मेर वन्दे प्रजनैः भूयागुंसस्तस्मात् भूयिष्ठाः प्रजायन्दे तस्मात् भूयिष्ठा प्रजनैर वन्दे धादव्याग्निहोत्रमित्याहतस्मादग्निहोत्रैर वन्दे यज्ञैः यज्ञो हि देवास्तस्माद्यज्ञैर वन्दे मानसमिति विद्वांसस्तस्मात् विद्वागुंस एव मानसेन वन्दे न्यासै ब्रह्मा हि परपरा हि प्रह्मा तानि वा वाच्यरे जेट्टे वंब्यदे एत्यो परिषदा सर्वं ब्रह्मदारिणस्वच्छन्द्र क्षणालोके दातारं प्रतिष्ठितं धर्म विश्वस्य जगतप्रतिष्ठालोके धर्मिष्ठं प्रजा उप धर्मेण पापमपनुं प्रजननं प्रतिष्ठा लोके साधु प्रजायानपि तृणामृणन्दस्मा प्रजनो वैत्रियी विद्यादे वयानः पन्थान्नामधेमाहमणि यस्याम सुवर्गो लोको बृहस्तस्मादग्नीयं प्राधुर्गुहा न्द्रयज्ञेन त्व मित्रान्ति यज्ञ सर्वं प्रतिष्ठितं तस्मां वै प्राज्यं पवित्रं मानसे रमधुवश ेन श्रया मेधा मेधयामीशामीषयाम नामनसां स्मृत्यां विज्ञानेनात्मानं आन्द प्राणा भवन्ति विज्ञानं विज्ञानादानन्दो ब्रह्मत्मायेन सर्वमिदं ब्रोतं पृथिवीक्षन्त्योस्त्रि सर्वमिदं जिज्ञासप्ताम्भयाय वित्तान्दस्मान्या प्राणे त्वमसि सन्धाता ब्रह्म त्वमसि विस्मृशत्ते जोदास्त्वमस्य सूर्यस्य त्रिम्नोदास्त्वमसि चन्द्रमस उपयामगुहीतो त्वामः सतोमित्यात्मानयुञ्जीतेषदम् देवानान्दुष्यञ्ज्य एवम् वेद ब्रह्मणो महिमानमात्मादि तस्मात् ब्रह्मणो महिमानमित्युपनिषत् तस्यैवं विदुषो यज्ञस्यात्मा यमानश्रद्धा वृत्तिष्ठते सायं प्रान्मरणन्दन वभृत एतद्वैजरामर्यवक्ष्यपात्रञ एवं विद्वानुधे प्रमीयते देवानामेव स्य सायुज्यम् गच्छयो दक्षिणे प्रमीयते पितृणामेव महिमानम् चेतो वै सूर्या चन्द्रमसमहिमानो ब्राह्मणो विद्वानभिजेदितस्मात् ब्रह्मणो महिमानमाप्नोत् तस्मात् ब्रह्मणो महिमानम् सा न भवतो स नो भरतो स वीर्यम् करवावहि एजस्विनावधिमस्तमाविद्विषावहे ॐ श्याम् ज्यः ज्यञ्जिः इति तैत्तीयोपनिषद्भागे चतुर्थः प्रश्नः समाप्तः श्रीकृष्णयजुर्वेदश्च समाप्तः